सुरसंस्कृतस्य सीमवेति विभाषा इम्प्रसारणम् आद्यन्तौ चितौ निरः एष्रस्वादेशे nya ba नित्य आदे परस्य अस्य नित्य आदे परस्य आदे परस्परस्य अनेकास्य फलस्य अनेकाश्चित् सर्वस्य आदे आदे परस्य अनेकाश्चित् सर्वस्य आदे परस्य अनेकाश्चित् सर्वस्य अनेकाश्चित् सर्वस्य अनेकाश्चित् सर्वस्य स्थानिवदादेशो न विधौ स्थानिवदादेशो ने कालित् सर्वस्य हानिवदा स्थानिवदादेशो न विधौ अनेकालक्षित् सर्वस्य स्थानिवदादेशो नलविधौ नििमदादेशो नलविधौ कुडानि नलविधौ हानिवदादेशो नलविधौ अनेकाशि सर्वस्य हानिवदादेशो नलविधौ अनेकाशि सर्वस्य तानिवदादेशो नलि काश्चित् सर्वस्य स्थानिवदादेशो नर्मिनौ आदे परस्य अनेकाश्चित् सर्वस्य स्थानिवदादेशो न आदे परस्य अनेकाश्चित् सर्वस्य vadah den thaal ke lao ichcha स्थादेशो विषयो परः एत इभ्यस्वादेशे षष्ठी स्थाने योज स्थानेऽन्तरतमः ग्रह्परः अलोन्त्यस्य नित्यम् आने परस्य अनेका सर्वस्य आत्मकादेशो न्यापरा दृष्टादेशे देशो नग्नौ मिलम् स्यात्परः ते च इग्रस्वादेशे स्थाने लोगः इभ्रस्वादेशे षष्ठे स्ाने योगा स्थानेऽन्तरतमः पुरन्नपुरः अलोन्त्यस्य नित्य आदेः परस्य अनेकाश्चित् सर्वस्य हानिबलादेशो न विधौ तमुपौघा बहु गन्मसुदतिसङ्ख्या शान्ता षट् दति च तत्तनिष्ठा सर्वादीनि सर्वकामानि विभाषादिसमासे मौवीहौ न मौवीहौ तृतीया समासे द्वन्द्वे च विभाषाजसि प्रथमचरमदयालपादपतिपयनेमास्क पूर्वपरावरदक्षिणोत्तरम् पराधराणि व्यवस्थायाम् सञ्ज्ञायाम् स्वमत्यादिरणाख्यायाम् अन्तरम् बहिर्योगोपसंज्ञानयोः परादिनिपातमान्य अव्यीभावश्च शेष स्थानम् सुननपुंसकस्य न मेति विभाषाम् एजनः सम्प्रसारणम् आयन्तौ कलितौ विदचो चात्मलः एत इभ्रस्वादेशे षष्ठीस्थाने योगान् स्य नित्य आदे परस्य अनेकार्षित् सर्वस्य हानिवदादेशो न विधौ ततो स्वातो सुना अध्यैवावश्च श्रीसर्वनामस्थानम् सुडनपुंसकश्च नैकी माया तीर्घणा सम्प्रसारणम् आर्यष्टौ मयितौ